वैश्वदेवेन वै प्रजापति प्रजा असृजता सा सृष्टा न प्राजायन्ता सोऽज्ञरकामयत अहमा प्रजनयेयमिति स प्रजापदेषु चमदथा प्रजामिच्छमानः तस्माद्यम् च प्रजापुनः जना सा साग्निरध्यैयेत् सोमो नेतोऽर्थात् सविद्याप्राजनयत् सरस्वती वाचमर्थात् पोषा पोषयत् देवा एते संवत्सरस्य प्रयुज्यन्ते एवा पुष्टिपतयः संवत्सरो हे प्रजापतिः संवत्सरेणैवास्मैः प्रजा, प्रजा प्राजनयत् जाता ता प्रजा जाता मरुतो गृहन् अस्मानपिणप्रायुक्षते सवेदम् प्रजापधर्मारुतकम् सप्तकपालमपश्यते अन्यद ततो वै प्रजाभ्यो कल्पता धर्मारुतो निरुप्यते सप्तकपालो भवति सप्तगणा वै स्त्रे विषम् कल्पयति सः प्रजापतिरशोचते या पूर्वाः प्रजा अशिक्षे मरुतस्ता अवशिशुः कथमपराश्रुजयेति तस्य सुष्माण्डम् भूतम् निरवर्तत तत तदपोषयते तत्प्राजायत तत आण्डस्य वा एतद्रूपम् यदामिक्षाः रजा एव तद्निजमानः पोषयति ऐश्वदेव्यामिक्षा भवति ऐश्वदेव्या वै प्रजाः रजा एवास्मै प्रजनयति वाजिनमानयति प्रजास्वैव प्रजाता सुनेतो दधाति या वा पृथिव्या एककमाल भवति प्रजा एव प्रजाताद्या वा पृथिवेभ्यामुपरिगृह्णाति संयक्ता सन् सोऽब्रवीद मामग्रेनासुराञ्जयते माम् इति सोमोऽज्ञा जयते माम् इति सविता मया सूता जयते माम् चतुच्छेमिति सरस्वतीयम् मोहन्धास्यामेति माम् पञ्चममिति ऊषा मया प्रतिष्ठया जय श्रेखेनासुराणज सोमे न राज्ञा सवित्रा प्रसूताः सरस्वतीयमदधा प्रतिष्ठासीत् ततो हवे दे कुक्षे लोप्यन्ते अभिचित्ये नोत्तरवेदिमुपवपदे पशवो वा उत्तरवेदिः अजातायुवह्ये तर्हि पशवःबर्हिर्भवति माता पिता पुत्रः तदेव तन्मिथुनम्बङ्गभो जरायु तदेव तन्विथुनम् ते बहिः सन्नद्धम् भवति येज्मे लो लोकाः येष्मेव लोकेषु प्रतितिष्ठति एकथा पुनः सन्नद्धम् भवति एकयिवाह्ययम् लोकः अस्मिन्नेव तेन लोके प्रतितिष्ठति ऋथवा भवन्ति प्रथमचामेव पुष्टिमवृन्धे प्रथम च वत्सो दक्षिणा समृद्ध्यै पृशदाज्यम् गृह्णाति पशुभागे पृशदाज्यम् पशवमेवावृन्धे पञ्चगृहीतम् भवति वा ता हि भवति बहुलोपा हि पशवः समृद्ध्यै अग्निमुखावय त्वजा वयप्रजा असृजता यदग्निम् मन्थन्ते अग्निमुखायेव तत्प्रजा यजमानसृजते नवप्रजाजा युज्यन्ते नवानो याजाः अष्टौ हवे गुम्भे द्वाधारौ द्वावाद्यभागौ त्रिपुंसत्सम्पद्यन्ते त्रिपुंसदक्षराविराज अन्नम् विराज इरादेवान्नाग्निवरुन्धे यजमानो वा एककपालः तेजाज्यम् एककपालाजमानयति यजमानमेव तेजसा समर्दयति यजमानो वा एककपालः पशवाज्यम् एककपालाजमानयति यजमानमेव पशुभिः समर्धयति यदल्पमानयेत् अल्पायनम् पशवाभुञ्जन्तमुपतिष्ठेरन् यद्बह्वानयेत् बहवयेणम् पशवो भुञ्जन्त उपतिष्ठेरन् बहक्वायै अविप्ष्ठम् कुर्यात् बहवयवैनम् पशवो भुञ्जन्त उपतिष्ठन्ते यजमानो वा एकपालः यदेकपालस्यावद्वे यजमानस्यावद्वेत् भुक्त्वा मार्गे यजमानः प्रमादीयेत सहृदयो लोकः भुक्त्वा यजमानमेवसुवर्गम् लोकम् गमयित्वा तेजसा समर्थयति ते यजमानो वा लेखकपालः सुवर्गो लोकाः वणीयः विलेखकपालमाहवणीय जहोति यजमानमेवसुवर्गम् लोकम् गमयति यद्धस्तेन विभुयान् स्वर्गाल्लोकाद्यजमानो विध्ये श्रुता जिहोति स्वर्गस्य लोकस्य समष्टि यत्प्राम्पद्येत देवलोकमभिजयेत् यद्दक्षिणापितलोकम् यत्प्रत्यज रक्षागुम् यज्ञकम् वन्यः यदुदन्य मनुष्यलोकमभिजयेत् प्रतिष्ठितोः तव्यः भेषम्बे प्रतिष्ठन्त्या वा पृथिवे अनुप्रतिष्ठतः यावापृथिवेतवः ऋतोण यज्ञः यज्ञम् यजमानः यजमानम् प्रजाः तस्मात्प्रतिष्ठितोः तव्यः वाजिना विजते अग्रतवायः सौर्यः एवजिनः तानेव तद्यजते अथो खल्बाहुः छन्दागुंसि वै वाजिन तान्येव तद्यजते यत्सामेव इन्द्रस्य हरिसोमपानो हरियोपरिधय आधानम् वाजिनम् भागधेयम्प्रसत्यपरिधेऽन्यभुजा अन्तराधानाद्राङ्कासम्प्रयच्छेत् प्रहत्यन् वाजिनमानयति प्रजा विः एतो वाजिनम् प्रजास्वेतो दधाति समभूय भक्षयन्ति एतत्समपि धास्येते अथ आत्मेवन उत्तमो भक्षयति पशपोदेवाजिनम् यजमान एव पशून् प्रतिष्ठापयन्ति प्रजापतिः सविता भूत्वा प्रजा असजता कालेन वच्यमन्यन्त अस्मातपाः ब्राह्मन् आवरुणो भूत्वा प्रजावरुणेनाग्राहयत् आ प्रजावरुणगृहीताः प्रजापतिम् पुनर्वाधावन्नाशमिच्छमानाः सवेतान् प्रजापतिर्वरुणप्रकाशान् एवै प्रजावर्णभाषादमुञ्चप्रभाशानुत्यन्ते प्रजानामवर्णग्राहाय तासाम् दक्षिणो बाहुत सव्यप्रसृतः सजताम् द्वितीयाम् दक्षिणतो वेदिमुदहन् ततो वेदप्रजानाम् दक्षिणम् बाहुम् प्रासारयत तद्वितीयाम् दक्षिणतो वेति मधन्ते गजानामेव तद्यजमानो दक्षिणम् बाहुम् प्रसारयति तस्माहुः यज्ञाभिजितज्ञस्कस्य प्रथमात्राद्वेदी असम्भ्यन्ने भवतः तस्मात् प्रथमात्रम् व्यंसौ उत्तरस्याम् वेद्यामुत्तरवेदिमुपवति अशुभो वा उत्तरवेदिः पशोने वा अथवा यज्ञपुरुषानन्तरित्ते एतद् ब्राह्मणे गुण्डे अथिहलेन्द्राज्ञा भवति प्राणापानौ वा एतौ देवानाम् इरिन्द्राज्ञे रिन्द्राज्ञा देवा भवते प्राणापानावेवावन्धे भोजावलम्बा एतौ देवानाम् इन्द्राग्ने इन्द्राज्ञा भवते रुन्धे मारुत्यामिक्षा भवति वारुण्यामिक्षाषी च मेषश्च भवतः एव प्रजावरुणपासमेवाभ्यामपि यच्छति प्रजापतिमन्नाद्यन्नोपनमते सकेतेन सके हविषान्नाद्यमवारुन्ध शतानि शमे वर्णानि भवन्ति अन्नान्यस्यावरुद्ध्यै सौम्यानि वै कलीलानि सौम्या खलु वा आहुतिर्दिवावृष्टिम् चावयति यत्कलीलानि भवन्ति दिवावृष्टिमवन्धे काले च कपाला भवति वृथानाम् कन्वाय प्रतिपोषम् करम्भपात्राणि भवन्ति जाता एव प्रजावरुणपाशान्मुञ्चते एकमतिरिक्तम् न लिष्यमाना एव प्रजावरणभाषान् मञ्चते उत्तरस्याम् वेद्यामन्यानि हवेकुम् साधयति दक्षिणायाम् मारु अपधुरमेवैनायन्ते अथो कोचे वासामपहरति तस्माद्ब्रह्मणश्च क्षत्राश्च ेव वर्णमायते यदेवाधर्यः करोति तत्पदि प्रस्थाता करोति तस्मादिच्छाम् पत्नीम् वाचयति मेध्या देवीनाम् करोति अथो तपदेवीनामुपनयति विद्यादिकम् सन्तन्नः प्राप्नुयात् क्रियाम् ज्ञायममुन्ध्यात् असौमे जालयति निर्दिशत् निर्दिश्यैवैनम् वरुणपाशेन ग्राहयति प्रधा स्यान् हवामैः पत्ने मुदानयति अहवदेवैनाह यत्पत्ने पुरोऽनुवाक्यामनुब्रूयात् निर्वेर्यजमानः स्यात् हियमानोन्वाह आत्मन्नेव वेर्यम् धत् उभौ याद्यागम् से ज्ञात्वायामेत्याह यथोदितमेव वर्णमपयजरे यजमानदेव दे पत्यो वनीयः भ्रातरुजदेव वत्यो दक्षिणः यदा जुभूयात् विजमानम् वर्णपाशेन ग्राहयेत् दक्षिणे अग्नौ जुहोति भ्रातर्जमेव वर्णपाशेन ग्राहयति शूर्पेण जुहोति अन्यमेव वर्णमपयते शीर्षम् अतिधाय जुभोति शीर्षत एव वर्णपे प्रत्यम् तिष्ठन् जति प्रत्यङ्गेव्यविमुच्यते दे। अक्रन्कर्मकर्मकरवृत्याः देवानुरवदाय अगृहानुपप्रेते दिवावेतनाः वर्णगृहीतम् वारे तद्यज्ञस्य यद्व्यजता गृहीतस्यातिरिक्ष्यते पुधाः तुषेश्चि निष्कासेन तामपृथमोति वरुणगृहीतेनैव वरुणमवेचते अपोमपृथवैति अप्सुवे वरुणः साक्षादेव वरुणमवेचते पतिहितो वरुणस्य वाश्विक्त्याह वरुणपाशादेव निर्मुच्यते अप्रतीक्षमायन्ते वरुणस्यान्तरिह्यमहीत्याः समितैवाज्ञन्नमस्यन्त उपायन्ति तेजोसु तेजोत्याह तेजुदेवाक्रन्धत्ते देवासुराः संयत्तासन् सोऽज्ञरब्रवीत् ममेरमनीकवते तमोह ताम् प्रीणयिताम् अथासुराम्युपविश्य चेत् ते देवाग्निवेकवते पुरोढाशमष्टाकपालन्य सोऽवान् स्वेन भागधेलेन प्रीतः चतुर्थानेकान्यजनयत ततो देवाभवन् परासुराः यदग्निकमते पुरोडागमष्टाकपालन्यर्भवति अग्निपेवानेकवन्तग्निश्वेन भागहेन प्रीणाति सोऽजनने भागशेन प्रीतः चतुर्थानेकानि जनयते असौ वा जननेकवान् तस्य रश्मयोऽनेकानि साकम् शौर्येणापिता निर्गपति साक्षादेवास्मा अनीकानि जनयति तेऽधः पराजितायन्तः दावापृथिवीरुपाः आश्रयन् ते देवावरुद्भ्यः सान्तमनेभ्यष्टरम् निर्भवन् तान् द्यापृथिवेभ्यामेव भयदः समगमन् निर्मरुद्भ्यः सान्तमनेभ्यष्टरम् पृथिवीभ्यामेव तदुभयतो इदवाभ्यादुर्भ्याम् सन्तपति मध्यम् दिने निर्भवति परिहेण्यक्षन्तपति चतुर्भवति सर्वतदेवेनान् सन्तपति हे देवाश्वादीनः सन्तः सर्वासाम् दुग्धे कृतमेधीनम् चलुर्निलपन् आशिता देवाद्योपवशा वा कस्य वा एतम् कस्य वा स्ववितेति नशतोहवने तस्याहुतस्य नाश्नन् न हि देवाहुतस्याश्नन्ति ते ब्रुवन् तस्मा इगम् भोष्यामिति मरुद्भ्यो गृहमेषुभ्यरित्यब्रुवन् तम् मरुद्भ्यो गृहमेषुभ्यो ऋ देवाभवन् परासुराः यस्यैवम् विदतो मरुद्भ्यो गृहमेषुभ्यो गृहे भवत्यात्मनाः पराः स्यतर्या भवति यन्ते यज्ञस्य पाकत्रा क्रियते वा एतत् क्रियते यन्नेध्वा बलहद्भवति न सा विधेनेरन्वाः न प्रजा मरुतो गृहमेधिलो य भागधेनैवेन् समर्थयति अज्ञस्वष्ठगण्यप्रतिष्ठित्य इडान्वभवति अशभो इडान। वायिणा प्रचतिष्ठते यत्पत्ने गृहमेधीयस्याश्मीयात् गृहमेध्येव स्यात् वित्तश्च निज्ञनिध्येत यन्नाश्मीरात् अग्रमेधे स्यात् नास्तिज्ञा व्यर्थ्येन प्रतिवेशम् भजेयुः तस्या स्थीमे भवति नास्तिज्ञा व्यर्थ्येदेष्ट्वा आशिता अभवन् आञ्जताभ्यञ्जता अनुवत्सनवाचयन् तेभ्योऽसुराः कृषम् प्राहिण्वन् साधेतुलोकमहित्वा असुरान् तोलगच्छत् गृहमेधीय नेष्वा आशिता भवन्ति आयञ्जते अभ्यञ्जते अनुवत्सा जातरन्ति भ्रातर्या एव तद्यमानः कृषम् प्रहिणोति एवागृहमेधीय नेष्ट्राज्वा अस्मानेव स्व इन्द्रो इन्द्राजनिष्कासन्निषर्ध्यात् इन्द्रदेवेन निहितभागमुपावर्तते व्यारुषपत्य भवति समर्थयति इन्द्रो मृत्रकम् हत्वा पराहम्परावतमगच्छत् अपाराधिमिति मन्यमानः सोऽः ब्रवीर कलितम् वेदिष्यतीति हे ब्रुवम् मरुतो वरम् वृणामहे अथ वजम् वेदाम अस्मभ्यमेव प्रथमकम् हविम् निरुप्यात इति प्रजेन मध्यः क्रीडन् तत्क्रीडिनाहम् क्रीडित्वम् तन्मरुद्भ्यः क्रीडिभ्यः प्रथमकम् भवेन्निरुप्यते चित्ते एतस्मिन् वै लोकेन्द्रो वृत्रमहन् समर्थ्ये एतद्भवति उद्धारम् वा एतमेन्द्र उदाहरता वृत्रकम् हत्वा अन्यासदेवतास्मति यदेश इन्द्रश्चरुद्भवति उद्धारमेवदञ्जन वा उद्धरते अन्यासप्रजास्मति ऐश्वकर्मण एकपादो भवति विश्वान्येव तेन कर्माणि हिजमानोऽवरुन्धे हैश्वदेवेन वै प्रजापतिः प्रजा असजत तामरुणप्रघातेर्वरुणपाशादमुञ्चत् साकमेधे प्रत्यस्थापयत् त्रम्बके रुदन्निरवादयत इति दैर्घ्येन सुवर्गम् लोकमगमयत् यद्वैश्वदेवेन हि ते प्रजा सा वर्णप्रघासेर्वर्णमासान्मञ्चते साकमेधे प्रतिष्ठापयति त्र्यम्बके वृद्धम् निर्वदयत् त्रिकेन सुमर्गम् लोकम् गमयति दक्षिणतः प्राचीनाबीके निर्वमति दक्षिणा वृद्धिपितलाम् अनादृत्य तत् उत्तरदेवोऽपीयम् दवेर् भवेहि देवाश्च पितरश्चन्ते अथोजदेव वेददक्षिणावत् सोमानि पितृमते पुरोणाशकम् तर्कबालम् निर्भवति संवत्सरो सोमः पितृमाणि संवत्सरमेव प्रीणाति पितृभ्योपरिषद्भ्यो धानाः मासा वे हृतोपरिषदः मासानेव प्रीणाति यस्मिन् भारतौ पुरुषः प्रमीयते सोऽस्यामस्मिलोके भवति बहुरूपा भिरि पितृभ्योऽग्निष्पात्तभ्यो मन्त्रम् अर्धमासादे पितरोग्निष्पात्त्वा अर्धमासानेव प्रीणादि अभिमान्यादि दुग्धे भवति सा हि पि ते वर्त्यम् दुःपर्णम् तन्मनुष्याणाम् उपर्यर्थो देवानाम् अर्धः पितनाम् अर्ध उपमन्थति अर्धो हि पितम् एकजोपमन्थति एकाकि पितॄणाम् दक्षिणोपमन्थति दक्षिणावृद्धिपितृणाम् अनारभ्योपमन्थति तद्धिपितरम् गच्छति इमान् दिशं मे निन्ति उभये हि देवाश्च पितरश्चेद्यन्ते यदुःशक्तिर्भवति सर्वा यः पितरः अखाता भवति खाता हि देवानाम्राधीयते अन्ततो हि देवानामाधीयतेः वर्षीयानिध्वयुद्वाद्भवति व्यावृत्यै परिश्रयते अन्तर्हितो हि पितृलोको मनुष्यलोकात् यत्परुषिणम् तद्देवानाम् यदन्तरा तन्मनुष्याणाम् यत्समूलम् तत्पितृणाम् समूलम् वर्षिद्भवति व्यावृत्त्यै दक्षिणापिता दक्षिणावृद्धिपितृणाम् त्वपरिजयति तृतीरे वा इतो लोके पितरः तादेव तारे त्रिपुरः परिणेति षट् सम्पद्यन्ते षड्वा ऋतमः ऋतोरेव प्रीणादि पर्परस्पर एता गण्णीरात् प्रमाणिको इदमारः स्यात् गणीरात् अनायतडः स्यात् तोष्टेव वन्यश्चेत् यत्रेऽन्परिधेन् परिदध्यात् मृत्युना यजमानम् परिगृह्णीरात् यन्न परिदध्यात् रक्षाकम् च यज्ञकम् हन्यः तौ परिधे परिदधाति रक्षसा अथो मत्योदेव यजमानमुत्सजते यत्रेण यत्रेण हवेदश्च्युताहरेः तयस्त्रेयाकम् साकम् प्रमीरेरन् एकैकदेवैषामन्वम् च प्रमीयते कशिपकशिप्याय उपवर्हण उपवर्हण्याय आञ्जनमाञ्जन्याय अभ्यञ्जनमभ्यञ्जन्याय यथाेभ्यः पितृभ्यः सिद्यमानायानुब्रूहेत्याह उभयैकदेवाश्च पितरश्च एकामन्वाः एका हि पितृणाम् रङ्गाः तर्हि देवानाः आधारावाकारयते यज्ञपरुषो वर्णन्तरिक्ते नारटेन वृणेत न होतारम् यदारटेन वृणेत यद्धोतारम् प्रमालिको यजमानः स्यात् प्रमालिको होता तस्मान्न वृणेत् यजमानस्य होतर्गापीचारे बहि प्रजा एव मृत्यो रक्षजते आज्यभागो युजते येग्यस्यैव लक्ष्मणीणान्तरयति वाचेना वेदे सोमम् युजति कृतदेवत्या हि एषा हुतिः परञ्चतृत्वोपद्यते पञ्चह्येता देवताः देव पुरोवाक्ये याद्या देवतावशत्कारः सा प्रैवे पूर्णया पुरोनुभाग्ययाः प्रणयति द्वितीयया गमयति याज्ञया तृतीयवायतो लोके पितरः अन्भयवेनान्पूर्णया पुरोनुभाक्यया त्यानयति रात्रिद्वितीयया नैवेया गमयति दक्षिणतोपदायिक्रामतिर्व्यावृत्त्यै आस्रेत्याश्रावयति अस्तु स्वधेति प्रश्नाश्रावयति स्वधा नय दिवशः करोति स्वधाकारो हि पितृणाम् सोमो यजति सोमप्रयाजा हि पितरः सोमम् पितरवन्तम् यजति संवत्सरो वे सोमपितृवान् सम्वत्सरमेव तद्विजति पितरम् परिहिषतो यजति एव यज्वानः ते पितरो परिहिषदः तानेव तद्यजति ष्पात्रा यजति हेवायज्वालाघ्य मेधिलः ते पितरोज्ञश्वात्ताः तानेव तद्यजति अग्निङ्गव्यवाहनम् यजति य एव पितृणामग्निः तमेव तद्व्यजते असो यथाज्ञस्वश्चकम् यजति तादृगेव तदे एतत्प्रेतदगे तत्त्वामन्वितृस्तेषु दधाति तस्मादा द्वितीया पुरुषान्नामन गृह्णन्ति एतावन्तो हे यद्यन्ते अत्र पितरो यथा भागम् मन्द्रमित्याः पितरः च आतमितोरुपतिष्ठन्ते अग्निमेवोपद्रष्टारम् कृत्वा निरवदयन्ते अन्तम् वारेते प्राणानाहम् गच्छन्ति यातमितोरुपतिष्ठन्ते सन्दृशम् त्वा वयमित्याह प्राणो वीचन्ते प्राणमेवात्मम् दधते यो जान्विन्द्रदेहीत्याह प्राणमेव पुनरयुक्ता अक्षन्नमेव मदन्त हीति गार्हमत्यमुपतिष्ठन्ते अर्क्षन्नमे मदन्ता सत्त्वोपदिष्टामः यदि वा वेददाः अमी मदन्तपितरः सोम्यानित्यभिप्रपद्यन्ते अमी मदन्तपितरो सत्त्वाभिप्रवर्ध्यामः यदि वा वेददाः अवः परिषिञ्चते मात्रयत्येवेनाथो दर्पयत्येव प्रजया पशुभिः य एवम् वेदावनो याजो यजते प्रजा वे एव मृत्यनुसजते दौ षड्सम्पद्यन्ते षड्वारतमः प्रेणाति न पत्यन्वास्पेयाजयन्तिपत्यन्वासीत यत्सञ्जाः स्यात् तस्मान्नान्वास्पेयाजयन्ते पत्यैकोऽपि साय प्रतिपोरुषमेकपाठान्निर्वपति जातादेव प्रजा रुद्राम् निरवदयत् एकपचरिक्तम् दरिष्यमाणादेव प्रजा रुद्रान्निरवदत् एकपाला भवन्ति एकथैव रुद्रम् निरवदत् नाभिघारयति यदभिघारयेत् अन्तरमचारिणकम् रुद्रम् कुर्यात् एकोन्मुखेन यन्ति तद्धि रुद्रस्य भागधेयम् इमान् निशयन्ति एषा वे रुद्रस्य च यामेव दिशिरुद्रन् निरवदते अग्रौ वा आहुक्ते ना नातिष्ठत असौ ते यमेव द्वेष्टेस्तेब्रूयात् न ग्राम्याम् पुशो न हिनस्ते नारण्यान् सुव अग्निवत्तेव जुहोति मध्यमेन वर्णेन जुहोति सुर्घेषु अन्तमेनैव होतव्यम् अन्ततदेव रुद्रम् निरवतयते एते रुद्रभागः सहस्रहस्राम्बिकजेत्याः शरद्वा श्याम्बिका स्वसा अया वा ये यावन्तज एव ग्राम्याः पशवः तेभ्य भेषति अवाहम्बर्द्रवतिमहेत्याह आश्रमेव नित्याः मृत्योर्मुक्षी न मामदातु वा वेतदाः उत्किरन्ति नरः स लेप्सन्ते भूते गत्वा यथा जनयेव सम् करोति तादृशे वदते एतदे रुद्रभागत्याः निरमत्यै अप्रजेक्षमायन्ते अपप्रभुञ्चते रुद्रस्यान्तरिहृत्यै प्लवायते यस्मान् लोकाच्यवन्ते हेत्यम्बेश्चरन्ते आदित्यञ्चरम् पुनरेत्य निर्लपते यम्बादिः अस्यामेव प्रतिष्ठन्ति ओम् एतद्ब्राह्मणान्नेव पञ्च हवेंहे धीरायरोडाधन्वादशपालम् निर्भवति समवत्सरो वा इन्द्राशुनाधीनः समंवत्सरे नैवास्मान्नवृन्धे वायव्यम् पयो भवति वायुर्वे वृष्टे ये प्रदापयिता सरेवस्मे वृष्ट्यम् प्रदापयति सौर्यये च गवा भवति सूर्येण वामुष्मल्लोके वृष्ट्यर्थता स एवास्मे वृष्ट्यम् नियच्छति द्वादशमध्यै देवासुरासंयत्तासन् ते देवाब्रवन् या वेदे सोऽहमात्मानम् विकरिष्यते सत्र यथानम् व्यकुरुता अज्ञन्तितेजम् रुद्धन्ति तेयम् वृणन्ति तेजम् सोऽब्रवीत् कैषन्तुलीयमिति अहमिजीन्द्रो अब्रवीत् सन्तुस जावः इति तौ समशेताम्भवत् यगेन्द्रस्तुलीयमभवत् रीन्द्रीयस्य देवाभिन्ता यगीन्द्रतुरीयन्निरुप्यते अभिजिप्ते यद्ब्रहिणेः तेनाग् यद्गौ तेन दौद्री यद्धेनुः स्त्री सतीतान्तारुणे समृद्धे प्रजापतिर्यज्ञमसृजताष्टकुम् रक्षाकस्य लिखाकुम् सन् सज ताः प्रजापतिरात्मनो देवतानिरमिमीता ताभिर्वेषु दिग्भ्यो रक्षाकुंसि प्राणुदतीयम् ज्योति युग्भ्य एव त्यजमानो रक्षाकुंसि प्रणुदत् समूढकौ रक्षः सन्दर्धगौ रक्षयित्याः रक्षाकस्येव रक्षा रक्षा सन्दहति अग्ने रक्षोग्ने स्वाहेत्याः देवताभ्यजवदिज्ञानाभ्यो भागेयम् करोति वृष्टिवाहीरथो दक्षिणासमृद्ध्यै हत्वा असुरान्पनाभा नबुचिमासुरम् नालभत कलु सच्च औसमलभेताम् सोऽस्मादपि सुनतरो भवति सोऽ सन्धाकम् सन्दधा महै अथ त्वावस्रक्ष्यामि न मा दुष्केण नाः निवारणक्तमिति स एतमपाम्फेनमचिन्त न वा एतदौ नाद्रोद्युष्टाधीरे अनुदितः सौर्यः न वा अपाम्फेन सुरमुदवर्तयते तेनन्वर्तत मित्रध्वजिते स एतानपामार्गानु जनयते आनुजुहोद्वैष रक्षाकस्यपाहत यदपामार्गहोमो भवति रक्षसानपाहत्यै एकोन्मुखेन यन्ति तद्भिक्षसाम्भागधेयम् इमाम् विधेयन्ते एषामै रक्षसान्विके स्वायामेव दिशरक्षाकम् जिहन्ति स्वकृतगिरिणे जिहोजिप्रदरेवाः एतद्वै रक्षसामायतनम् स्वदेवायतने रक्षाकम् जिहन्ति पर्णमयेण श्रुवेण जिहोजि ब्रह्म वर्णः ब्रह्मणेव रक्षाकम् जिहन्ति देवस्यर्ता स पिजर्प्रसभृत्याः स्वपितर्प्रसूत एव रक्षाकम् जिहन्ति अदगं रक्षोपशिष्परक्ष यद्वस्ते तद्दक्षिणा जलमध्ये रक्षसे क्षमायन्दे रक्षसा मन्दरिहत्ते धात्रे पुरोधा शन्धालजगमालन् निर्वमते सम्वत्सरा वैधाता संवत्सरे नैवास्मै प्रजा प्रजनयते अन्दैवा स्मानुमतिर्मन्यते राजे राका प्रसजनैवाले जनयति प्रजास्मैवजाता भुक्त्वा वाचन्दधाति विष्णोगामो दक्षिणा समृद्ध्यै हाग्ना वैष्णवमेकादशकपालम् जपपते हैन्द्रा वैष्णवमेकादशकपालम् वैष्णवम्त्रिकपालम् वीर्यम् वा अग्निः वीर्यमिन्द्रः वीर्यम् विष्णुः प्रजा एव प्रजाता वीर्य प्रतिष्ठापयते तस्मा प्रजा वीर्यावतीः वामनर्षभोभि दक्षिणा यद्भी हेना ज्ञेयः यदिषभः हेनेन्द्रः यद्वा मनः हेन वैष्टवः समृद्ध्यै अग्नि सोमीयमेकादशकपालम् निर्ववति इन्द्रासोमीयमेकादशकपालम् सौम्यञ्चनम् सोमो वेदेतोषाः अज्ञः प्रजानाम् प्रदायता वृद्धानामिन्द्रः प्रदापयिता सोमयेवास्मै तोषादि अग्निः प्रजाम् प्रजनयति वृद्धामिन्द्रः प्रयच्छति बभ्रुर्दक्षिणासमृद्ध्यै सोमापौष्णम् चलम् निर्भवति ऐन्द्रापौष्णञ्चलम् सोमो वेरे तोषाः ऊषापशूनाम् प्रजनयिता वृद्धानामिन्द्रः प्रतापयिता सोमगेवास्मै रेतोदषादि ऊषापशून् प्रजनयति वृद्धानिन्द्रः प्रयच्छति पौष्णश्चरुर्भवति इयम् वै पूषा अस्यामेव प्रतिष्ठति श्यामो दक्षिणा समध्ये बहुवै पुरुषो मेध्यमुपगच्छति वैश्वानरम् तादृशगपानपति संवत्सरो वानदः संवत्सरेणैवैनग्निस्पदयति हरते ्राह्मणम् पदत्यजतम् खलु वे क्रियमाणे वरुणा गृह्णाते वरुणपाशा देवेणम् मञ्चते अश्वदक्षिणा वारुणा हि देवतयाश्वः समृद्ध्यै रत्तिनामेतानि हेकंषि भवन्ति राष्ट्रस्य प्रदातारः एकेव दातारः प्रदातारः दातारः स तके अस्मै राष्ट्रम् प्रयच्छन्ति राष्ट्रमे भवति यत्समाहृत्य निर्वमेत्नस्यो निर्वमेन्धे तावदेव वृन्धीता हन्वहन् निर्वपति भूयते मेवाश्रमवृन्धे भूयसा यज्ञकृतोऽनुपैति त्यम् चरम् लगपदे ब्रह्मणा गृहे वा स्मये ब्रह्मजगृश्यते स ब्रह्मन्नेव क्षत्रमन्वारम्भयते श्रुतपृष्ठो दक्षिणा समर्थे हैन्द्रमेकादशपालगौरा गृहे इन्द्रियमेवावन्धे वृषभोदक्षिणा समर्थे आदित्यम् चरम् महिषे गृहे इयम् अस्यामेव प्रतिष्ठते जैलम् समृद्धे भगायुतम् भावाचार्ये गृहे भगमेवास्मिन् दधाते विचित्तगर्भापष्टौ हि दक्षिणा समृद्धे तलम् परिवृत्ते गृहे कृष्णानाम् भिन्नम् वाग्णमेव कृष्णाकूटा दक्षिणासमृद्धे आग्नेयमष्टाकपालकम् सेनान्योन् गृहे सेनामेवास्य हिरण्यम् दक्षिणासमृद्धे वारुणन्दशकपालकम् सूतस्य गृहे वर्णसममेवावरुन्धे महानिरष्टो दक्षिणासमृध्यै मातगम् सप्तकपालम् ग्रहमन्योद्घे अन्नम् वे मरुतः अन्नमेवावरुन्धे कृष्णर्दक्षिणासमृध्ये सा वित्रन्दादशकपालम् क्षत्रुग्रहे कृसोहोद्ये उपध्वस्तो दक्षिणासमर्थ्ये आश्विनन्दिकपालकम् सङ्ग्रहेतुर्ग्रहे अश्विनौ वै देवानाम् भिरजौ आभ्यामेवाश्मेभ्यजम् करोति सवाद्यो दक्षिणासमृद्धे पौष्टम् चलम् भागदृहस्य गृहे अन्नम् वे पूषा अन्नमेवावरुन्धे श्यामो दक्षिणासमृद्धे त रुद्रङ्गापेकम् जलमक्षा पापस्य गृहे अन्तत एव रुद्रण्यलपदयते सबलमुद्वारो दक्षिणासमृद्धे द्वादशेतानि हवेदं च भवन्ति द्वादसमासाः संवत्सरः संवत्सरेणैवास्मि राष्ट्रमवरुन्धे राष्ट्रमेव भवति यन्न प्रतिनिर्वचेत् रत्रिण आशिषोपरुन्धेरन् प्रतिनिर्वपति इन्द्रागसूत्राण्यपरोटाशमेकादशकपालम् इन्द्रायागम् होमुचे आशिष एवावरुन्धे अयम् न राजा वृत्रः राजा भोत्ता वृत्रम् वद्धादित्याह आशिषमेवैतामाशास्ते मैत्रा वादहस्पत्यम् भवति श्वेताये श्वेतवत्साये दुग्धे वारहस्पत्ये मैत्रमपि दधाते ब्रह्मणैवास्मै क्षत्रम् च समीची तभाति स्मये ब्रह्म दग्दर्श्यते अथो ब्रह्मन्नेव क्षत्रमन्वारम्भयते स्वयङ्कृता वेदर्भवति स्वयम् दिनम् बहिः स्वयम् कृतविद्मः अनभिजितस्याभिजित्यै तस्मात्राज्ञामरण्यमभिजितम् सैव श्वेता श्वेतवत्सा दक्षिणा समलव्य